तरुणादित्यसङ्काशश्चिरवासा जटाधरः पद्मपत्रा ननः पिङ्गस्तेजसा प्रज्वलन्निव उपसृष्टन्तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् अर्जुनो वासुदेवश्च तूर्णमुत्पत् त्यतस्थतुः इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि ब्राह्मणरूप्यनलागमने एकविंशत्यधिकद्विशततमोऽध्यायः